मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टि टु श्रावणमासमाहात्म्ये गालवसंशयनाशनम् श्रीगणेशाय नमः सूत उवाच अवन्दीनगरीमध्ये बभूवभ्राह्मणोत्तमः कालव सर्वधर्मज्ञः सर्वशास्त्रविशारदः शापानुग्रहयो शक्तस्तपस्तेजो सर्वां मुने यात्रा परकदा स्वगुरुं समागम्य विश्वामित्रं महामुनिम् यात्रां समाप्य तत्रैव संस्थितो भूत् सुशीलगः गणेशभजने सकृतं विश्वामित्रं तपोनिधिं एकनिष्ठतया दृष्ट्वा तमुवाच कृताञ्जलिः गालव उवाच पञ्चभूतात्मको देखो नश्वर सर्वसम्मतम् देहसंस्थं गणेशानम् तं कथम् भजसे प्रभो योगीन्द्राणां गुरुः साक्षात् त्वं ब्रह्मपदधारकः ब्रह्मभूतस्वभावम् किं त्यक्त्वा भजसि विघ्नवम् अयम् ब्रह्मपदिस्साक्षाद्वेदेषु भवद। थं देहधरसोऽपि बभूव च गजाननः रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकं तदर्थं कथितं स्वामिन् वेधैक्यं योगिनां मदं गणेशपूजनेनैव शुद्धचित्तो नरो भवद स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा त्यक्त्वा गजाननं तादोन्मत्तादिवच्चरेद त्वं शान्तियोगयुक्तस् सन्नद्धुनापि गजाननं भजसे किं महायोगिन् hmm. लोकानां सङ्ग्रहाय वा सुद उवाच एवं वदन्तमत्यन्तं मुनिर्निर्भत्स्य गालवं विश्वामित्रस्वशिष्यं तमुवाच ज्ञानदायकः विश्वामित्र उवाच मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकं सर्ववत्तं विशेषेणत्वं मा जानीहि गालव पञ्चचित्तमयी बुद्धिस्वेच्छया देहधारिणी नानाभ्रान्तिकरी सिद्धिर्बभूवे सर्वदा तथा तयोस्वामी गणेशानो देहधारी बभूवः स्वेच्छया क्रीडनार्थाय मायाभ्याम मायिको यथा देहो जगन्मयो यस्य गजाकारं शिरःप्रभोः ब्रह्ममयं तयोर्योगे देहधारी गजाननः योगिनां हृदये धुण्डिर्वर्तते कथितो मया अज्ञानिनां निराकारः पञ्चभूतात्मकस्तधा सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते नोत्पत्तिना सर्ववन्मूर्खसत्तम अयं देहयुधप्रोक्तस्वेच्छया देहवर्जितः अन्तर्धाय स्वमात्मानं तिष्ठति योगनायकः विश्वं ब्रह्मयुदं सर्वं लयं गदं यदा मुने ब्रह्मणस्पति संज्ञे योगे तन्मयभावतः नरकुञ्जररूपम् तदभेदेन समास्थितं तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसं योगी योगबलेनैव भवति ब्रह्मरूपगः तथापि ब्रह्मसामर्थ्यं तस्य देहेन विद्यते ब्रह्मणस्पतिशब्दार्था सत्ता गाणेश देहके वर्तते सर्वदा तस्मात् तं योगिनः एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् गालवं तूष्णीं भावेना भजत्तं गणनायकं तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च निन्दयस्वात्मनात्मानं संशयस्यापनुत्तये गालव उवाच अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तमशिष्यं तारय योगेन योगयुक्तं तथा कुरु गणेशो योगशान्धिस्थो सदा योगीन्द्रसत्तमकथं देव इति ख्याधः कथिदो वेदवादिभिः देवाः सत्त्वयुदानाथ नरा राजसदां गदाः तामसा असुराः प्रोक्ता त्रिलोके वासकारिणः एवं मे संशयं स्वामिन्नुद नमः येन संशयहीनोऽहं भजिष्यामि गजाननं विश्वामित्र उवाच देवाः सत्त्वगुणेनैव योगदा स्वर्गनिवासिनः इन्द्रादयो न सन्तेहस् तेष्विन्द्रः परमागतिः ब्रह्मणो दिवसान्ते लयं गच्छन्ति नित्यदा अन्ये कर्मकरादेव भवन्ति मानवाः पुनः कर्मणा लभते स्थानं ब्रह्मणसृष्टिकारिणः कर्मरूपः स वै न देव समतां व्रजेद परं सामख्यािस्ताष्यांि निव विषुस्था भाश ईश्वरा अभवं सत्यसकल्पुण निर्गुण मुदा गणेशो ब्रह्मभूतो वै महामदे एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः दिवु क्रीडात्मको धातु मुनिभिर्मुदा सर्वत्र क्रीडनादेवा कथिता सर्वपूजिता का स्वधर्मनिष्टजे स्वस्वकर्मणि देवा इन्द्रमुखास्तेन कथिता शास्त्रवादिभिः सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा ब्रह्मादेन मुनीन्द्रैः इत्यभिधीयते अनन्तकोटिब्रह्माण्डानि रचित्वा स्वमायया शिवादयश्च चत्वारस्तेषु क्रीडन्ति देवकाः सत्यसङ्कल्पकत्वाद्वै ईश्वरास्ते प्रकीर्तिताः देवा क्रीडनभावा च असत्सत्स मनेतीति परं सृष्ट्वा चतुर्विधं विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विक्नभः जगत्सुब्रह्मसुप्राज्ञैक्रीडनात् गणजादिषु देवो गणेश्वरप्रोक्तः पश्य वेदेषु वर्णितम् अदो देव समानास्ते न भवन्ति कदाचन ब्रह्मादयो महाभाग देवशब्दप्रधारकाः सुद उवाच विश्वामित्रवच श्रुत्वा गालवोत्यन्धविस्मितः जगाद तं महाभागं संशयेन समन्वितः गालव उवाच देवा हविर्भुजः सर्वे तद्विधि मे महामदे हविर्भुजो महेशाद्या अभवन्भागमिश्रिताः दैत्याध्यैकर्मनाशेन पीडिता अमरा यदि तदा शम्भुवादयस्तद्वदुपोषणयुधाकृताः तेन देव समानास्ते दृश्यन्देनात्र संशयः वद संशय नाशार्थं शिष्यम् योगीन्द्रसत्तम विश्वामित्र उवाच अज्ञानासुरभावार्थार्देवा ब्रह्मादय किल उपोषणयुता सर्वे कृता दैत्याैर्भवन्त्यदः अधान्यशृणुतत्त्वं त्वं सर्वसंशयनाशनं खण्डैश्वर्ययुता इन्द्रादयो देवा प्रकीर्तिताः मन्वन्तरे गदे देवा इन्द्राद्या भागवर्जिताः देहत्याकं प्रकुर्वन्ति तपस्साध्यानशालिना अन्ये देवा भवन्ति स्मान्यस्मिन् मन्वन्तरे मुदा इन्द्राद्यास्तेन ते प्रोक्ता खण्डैश्वर्यात्मकामुने स्वस्वमन्वन्तरेष्वेव ते भवन्ति हविर्भुजः नष्टे मन्वन्तरे देवा हविर्भागविवर्जिताः तथा ब्रह्म स्वयं साक्षाद्धविर्भागधरो न च द्विपरार्थमयं कालं गुनकृस हविप्रभुः अद ऐश्वर्यसंयुक्तकल्पमात्रं न संशयः कथमिन्द्रादिकैरस्य समदा भवतीत्यहो बुधैः स धितश्चेष्टिभक्षणाम् अखण्डैश्वर्य संयुक्तेष्टिश्च सर्वत्र सम्मदा शिवादयसमाख्यादा हविर्भुजस्ततोऽधिकः अध अखण्डं हि हविर्भुजः गालव उवाच हविर्भुजः समाख्याता देवा शास्त्रेषु मानद यज्ञभागविहीनत्वात् कथं देवो गजाननः विश्वामित्र उवाच यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते पूज्यस्तथा हविर्भोक्ता दाक येक्रिदेश यदि कथ्यते समूहा सोगस्त किं संशो मुने वेदेशु गणराज यो भिन्नो नि ब्राह्मणस्पत संस् हविर्भुक्त तत्र विघ्नवः एकभागाश्रिदा देवा विष्णुशङ्करमुख्यतः अथ स्वस्वपदेष्वेव पूजनीया प्रयत्नदा सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तिदः सर्वपूज्यो महाविघ्नसमूहानाम् प्रपालनाद गालव उवाच पञ्चदेवाः समानाश्च स गुणा निर्गुणा मताः गणेश सर्वपूज्यादिपूज्य कथं बभूवः विश्वामित्र उवाच स गुणा निर्गुणाः प्रोक्ता ईश्वरा शम्भुमुख्यकाः सत्यसंकल्पभावेन योगरूपा न ते भवन् ये कुणाश्रिता सर्वे सगुणा परिकीर्तिताः महालये लयं ते गच्छन्ति गुणधारणात् सगुणा नाशवन्दस्ते निर्गुणा नाशवर्जिताः योगरूपास्तयोर्योगे शिवाद्याः सम्मदा बुधैः नरकुञ्चरयोगत्वाद्गणेशो योगवाचकः स गुणो निर्गुणसोऽपि तादृश्यस्तन्मयो भवद योगरूपः सदा देवो स गुणो वा स्वेच्छया द्विविधं सृष्ट्वा केरले भाववर्जितः स्वानन्दनगरे संस्थो देहधारी गजाननः स्वानन्दस्य लयो नास्ति वेदादिषु विचारय अतोऽयं न शखिनोऽपि देहभृच्छो भदे स्वयम् स गुणे योगनाथश्चान्दर्धाय निर्गुणे रथः अन्तर्धाय गणेशानो निर्गुणं योगशान्तिदः योगरूपे रथ सद्य स्वेच्छया नात्र संशयः अतोऽयं ज्येष्ठराज्यश्च ज्येष्ठानां ज्येष्ठभावाद्वै गतः सर्वादिपूज्यताम् पञ्चचित्तमयी बुद्धिसिद्धिर्भ्रान्तिप्रदा मदा तयो स्वामी गणेशानस्य व्यदे मे हृदि स्थितः एवमुक्त्वा महायोगी महामुने गालवः संशयं त्यक्त्वा प्रणनाम कृताञ्जलिः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालव संशयनाशनं नाम द्वात्रिंशोऽध्यायः ओम्